श्री श्रीगणेशाय नमः ओ भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभिरयजत्राः स्थिरैरङ्गैस्तुष्टुवाकुंसस्तनूभिः यशेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूजा विश्ववेधाः स्वस्ति न अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातो अथ गणेशाथर्वशीरिशंयाख्यास्यामः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अव श्रोतारम् अवधातारम् अवधातारम् अवानुजानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोतरात्तात् अवदक्षिणात्तात् अवजोऽर्ध्वात्तात् अवाधरात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयोविज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाक्पदानि गुणत्रयातीतः त्वम् देहत्र यातीतः त्वम् कालत्र यातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ति नित्यम् त्वमम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् एतत्तवमनुस्वरूपम् गकारः पोहोर्वरूपम् अकारो मध्यमरूपम् अननुस्वारश्चाहान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् संहिता सन्धिः सैषा गणेशविद्या गणनकरिषिः निसृद्गायत्री छन्दः गणपतिर्देवता ओम् गणम् गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् एकदन्तम् चतुरहस्तम् पाशमङ्कुशधारिणम् रदम् च वरदम् हस्तैर्बिभ्राणम् मूषगध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम् दिनम् देवम् आविर्भूतम् च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमव्रमथपतये नमस्ते अस्तुलम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः एतदथर्वशीर्षं योधीते स ब्रह्मभूयाय कल्पते स सर्वतः स सर्वविघ्नैर्नवाध्यरे स पञ्चमः पापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानोऽपापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमभरवशीर्षमशिष्याय भवति सहस्रावर्तनाद्यम् यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्या मनश्नम् जपति स विद्यावान्भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यात् न बिभेदि कदाचनेति यो दूर्वाङ्कुरैर्यजति स वैश्ववणोपमो भवति यो लालैर्यजति स यशोवान्भवति स मेधावान्भवति यो मोदक मोदकसहस्रेण यजति स वाञ्छिलफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महापापात् प्रमुच्यते स सर्वविद्भवति स सर्वविद् भवति य एवम् वेद इत्युपनिषत् सह सहना भवतु सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ओम् शान्ति शान्तिः शान्तिः भद्रम् गर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टु वागुंसस्तनूभिः व्यशेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्क्ष्यो अरिष्टनेमिः स्वस्ति बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शांत शांत